ज्ञ समक्न्ति विष्णुतुल्यपराक्रमः एष वीर्यवताम् श्रेष्ठो भविष्यति महायशाः एष महादेवं महादेवम् शंकरं अस्त्रं अस्त्रम् नाम तस्मात्तुष्टादवाप्स्यति निवातकवचा निवातकवचानाम दैत्या विबुध विद्विषः शट्राज्ञया महाबाहुस्तान् तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति विप्रणष्टाम् श्रियम् चायमाहर्ता पुरुषर्षभः एतामत्यद्भुताम् वाचं कुन्ती शुश्रावसूतके वाचमुच्चारितामुच्चैस्ताम् निशम्य तपस्विनाम् बभूव परमो हर्षशत तथा देवानिकायानाम् सेन्द्राणाम् च आकाशे दुन्दुभीनाञ्च बभूव तुमुलस्वनः उदतिष्ठन् महाघोषः पुष्पवृष्टिभिरावृतः समवेत्य च देवानाम् गणाः प्वार्थमपूजयन् काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा प्रजानाम् पतयः सर्वे सप्तचैव महर्षयः भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग् निर्वसिष्ठः यश्चोदितो भास्करे भूत् प्रणष्टे सोऽप्यत्रात्रिर्भगवाना जगाम मरीचिरङ्गिराश्चैव पुलस्त्यः पुलः क्रतुः दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा दिव्यमाल्याम्बरधराः उपगायन्ति बीभत्सुम् नृत्यन्तेऽप्सरसाम् तथा महर्षयश्चापि जयपुस्तत्र समन्ततः गन्धर्वैः सहितः श्रीमान् रागायत चतुम्बुरुः भीमसेनोग्रसेनौ च पूर्णायुरनघस्तथा गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः युगपस्तृणपः कार्षिर्नन्दिश्चित्ररथस्तथा त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः कलिफपञ्चदशश्चैव नारदश्चात्र कृत्वा बृहत्वा बृहकः करालश्च महामनाः ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा गीतमाधुर्यसम्पन्नौ विख्यातौ च हाहुः इत्येते देव गन्धर्वा जग्मुस्तत्र नराधिप तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः ननृतुर्वै जगुश्चायतलोचनाः अनूचा गुणमुख्या गुणावरा अद्रिका तथा सोमा मिश्रकेशी मरीचिशुचिका चैव विद्युत्पन्नातिलोत्तमा अम्बिका लक्षणाक्षेमा देवीरम्भा मनोरमा असिता च सुबाहुश्च सुप्रिया च वपुस्तथा पुण्डरीका सुगन्धा च सुरसा च प्रमाधिनी काम्या शारद्वती चैव ननृतुस्तत्र सङ्घषः मेनका सहजन्या च कर्णिकापुञ्जिकस्थला ऋतुस्थला घृताची च विश्वाचीपूर्वचित्यपि उम्लोचेति च विख्याता रम्लोचेति च उर्वश्येकादशीतासाम तासाम् जगुश्चाय च लोचनाः धातार्यमा च मित्रश्च परुणोंशोभगस्तथा इन्द्रो विवस्वान्पूषा च पष्टा च सविता तथा पर्जन्यश्चैव विष्णुश्च आदित्या द्वादशः स्मृताः महिमानम् पाण्डवस्य दहनोथेश्वरश्चैव कपाली च विशाम्पते स्थाणुर्भगश्च भगवान् रुद्रास्तत्रावतस्थिरे अश्विनौ बसवश्चाष्टौ मरुतश्च महाबलाः विश्वे देवास्तथासाध्यास्तत्रासन् परितस्थितः कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः कश्यपश्चाथ तक्षकश्च महोरगः आययुस्तपसायुक्ता महाक्रोधा महाबलाः एते तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः अरुणश्चारुणश्चैव वैनतेयाव्यवस्थिताः व्यवस्थिताः तांश्च देवगणान् सर्वान्स्तपः सिद्धा महर्षयः विमानगिर्यग्रगतान् ददृशुर्नेतरे तद्दृष्ट्वा महदाश्चर्यम् विस्मिता अधिकाम् स्म ततो प्रति पाण्डुस्तु पुनरे वैनाम् महायशाः वक्तुमैच्छद्धर्म कुन्तीत्वेव मथाब्रवीत् नातश्चतुर्थम् प्रसवमापत्स्वपि वदन्त्युत अतः परम् स्वैरिणी बन्धकी पञ्चमे भवेत् सत्वं विद्वं विद्वम् धर्ममिममधिगम्य कथम् नु माम् अपत्यार्थम् समुत्क्रम्य प्रमादादिवभाषसे पाण्डुरुवाच एवमेतद्धर्म शास्त्रम् इति श्रीमहाभारते आदिपर्वणि सम्भव पर्वणि पाण्डवोत्पत्तौ